श्रीहरये नमः त्रिशुक उवाच सत्यं समीक्ष ज भो न केन्धुभिर्हतस्वधा मद्युतिरावृतोऽभ्यघात् मरीचिमिश्रारुषयो बृहद्व्रता स नन्दनाद्या नरदेवयोगिनः तर्केतिहा सङ्घपुराणसंहिताः ये चा परे योगसमीर दीपित ज्ञानाग्निनारन्तितकर्म कल्मषाः भवन्दिरे यत्स्मरणानुभावत स्वायम्भुवं धाम गता अकर्मकम् आदाग्रये प्रोन्नमिताय विष्णो उपाहरत्पद्म भवोर्हणोदकम् समर्चभक्त्याभ्यकृणात् सुषित्रभ यन्ना विपङ्केरुहसम्भव स्वयं धादुः कमण्डलु जलं तदुक्रमस्य पादावने जनपवित्रतया नरेन्द्र स्वर्धुन्यभून्नपसि सा पतनीनिमार्ष्टि लोकत्रयम्बकवतो वि स देवकीर्तिः ब्रह्मादयो लोकनाथ स्वनाथया समादृताः सानुगाबलिमाजक्रो संक्षितात्मविभूतये तोयै समर्हणैषग्भैर्दिव्यगन्तानुलेपनैः धूपैर्दीपैः शूरभिबेर् लाजाक्षतः पलाङ्कुरैः तव नैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः नृत्यवादित्रगीतैश्च सङ्गधुन्दुभिनिस्वनैः जाम्बवान् ऋषराजस्तु बेरे सब्दैर्मनोजवः विजयं दिक्षु सर्वासु महोत्सवम् अघोषयत् महीं सर्वां कृ कृतां दृष्ट्वा त्रिपदव्याज जयाञ्चय जा ऊचुस्वभर्दुरसुरा दीक्षित श्यामात्मर्षिताः न वा अयम् ब्रह्मबन्धोर्विष्णोर्मायाविनाम् वरः द्विजरूपप्रतिष्ठन्तो देवकार्यं चिकीर्षति अनेनयाचमानेन याचमानेन शत्रुणा वटुरूपिणा सर्वस्वं नो हृतं भर्दुर्न्यस्तदण्डस्य सत्यव्रतस्य सततं दीक्षितस्य विशेषतः नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः तस्मादस्य वधो धर्म भर्तुः शुश्रूषणं च नः इत्यायुधानि जगृहोर्भलेरनुचरासुराः ते सर्वे वामनम् हन्तुम् शूलपट्टिसपाणयः अनिश्चतो भले राजन् प्राद्रवञ्जातमन्यवहा दृष्ट्वा दितिजानीकपान्फ प्रहस्यानुचरा विष्णो प्रत्यषे धन्बुधायुदा नन्दः जयो विजयः प्रबलो बलः कुमुद विश्वक्सेन पतत्रिराट् जयन्तश्रुतदेवश्च पुष्पदन्तोत सात्वतः सर्वे नागायुतप्राणाश्च भुंते जग्नुरासुरीं हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर्बलिः वारायामास काव्यशापम् अनुस्मरन् हे विप्रचित्ते हे हे नेमे श्रूयतां वचः मा युध्यतनिवर्धत्वं ननः कलोयमर्थकृत् यः प्रभुः सर्वभूतानां सुगदुःखोपपत्तये तं दैत्यां पौरुषैश्वरः पुमान् भवाय प्रागाशेत् अभवाय दिवौकशा स एव वर्तते तद्विपर्ययम् बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्तरौक्षतादिभिः सामादिभिरुपायैश्च कालं नात्येति वै भवद्भिर्निर्जितं हेते बहुसोनुचरा हरे हें दैवेनश्च एवाध्यं युधि जित्वा न दन्तिनः एतान् यदि दैवं प्रसीधतिं तस्मात्कालं कालं प्रतीशध्वं श्रीसुकौवाचा पत्युर्निगतितं श्रुत्वा दैत्यधानवयूतपाः रसाम्नि बिविसु राजन् विष्णुपार्षदताडिदाः अत ताश्यसुतो ज्ञात्वा विराट्प्रभुचिकीर्षितं भवन्त हाहाकारो महानासीद् रोधस्यो सर्वदोतिसं गृह्यमाणे सुरपधो विष्णुना प्रभविष्णुना तं बद्धं वारुणैपासेन् भगवानाहवामनः नष्ट श्रियं स्थिरप्रज्ञम् उदारयस सं नृप पदानि भूमेर्मह्यं त्वया सुर द्वाभ्यां क्रान्तामही सर्वा तपस्य सौगोबेर। यावत्तपस्य सौ गोभेर्यावदिन्तु सहोडुभिः वर्षति पर्जन्यस् तापति भूरियं तव पदैकेन मया क्रान्तो पूर्लोककं दिशस्तनोः स्वर्लोकस्तु द्वितीयेन पश्यतस्ते स्वमात्मना प्रतिश्रुतमधातुस्ते निरयेवासयिष्यते विशत्वं निरयं तस्माद् गुरुणा चानुमोदितः दूरे स्वर्गपतत्यधः प्रतिश्रुतस्याधानेन योर्तिनं विप्रलम्भते विप्रलब्धो दधामीति त्वया कं चाड्यमानिना तत् व्यलीकफलं भुङ्क्ष्व निरयम् इति श्रीमद्भगवते महापुराणे अष्टमस्कन्धे वामनप्रादुर्भावे बलिनिग्रहो नाम एकविंशदोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्दन् सद्गुरुनाथमहाराज के जय